ततः स भार्यः प्रणतस्तमुवाच बृहद्रथः पुत्रदर्शननैरास्याद्वाष्पसन्दिग्धया गिरा राजोवाच भगवन् राज्यमुत्सृज्य प्रस्थितोऽहम् तपोवनम् किंवरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे श्रीकृष्ण उवाच एतच्छ्रुत्वा मुनिर्ध्यानमगमत्क्षुभितेन्द्रियः तस्यैव चाम्रवृक्षस्य छायायाम् समुपाविशतु तस्योपविष्टस्य मुनेरुत्सङ्गे निपपातः अवातमसुकादष्टमेकमाम्रफलम् किल तत्र गृह्यमुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च राज्ञे ददावप्रतिमम् पुत्रसम्प्राप्तिकारणम् उवाच च महाप्राज्ञस्तम् राजानम् महामुनिः गच्छ राजन्कृतार्थोऽसि निवर्तस्व न राधिप तपोवने प्रजाः पालय यजस्व विविधैर्यज्ञैरिन्द्रम् तर्पय चेन्दुना पुत्रम् राज्ये प्रतिष्ठाप्य तत आश्रममा व्रज अष्टौ वरान् प्रयच्छामि तव पुत्रस्य पार्थिव ब्रह्मण्यतामजेयत्वम् युद्धेषु च तथा रतिम् प्रियातिधेयताम् चैव दीनानामन्ववेक्षणम् तथा बलम् च सुमहल्लोके कीर्तिम् शाश्वतीम् अनुरागम् प्रजानाम् च ददौ तस्मै स एतच्छुत्वा एतच्छ्रुत्वा मुनेर्वाक्यम् शिरसा प्रणिपत्य च मुनेः पादौ महाप्राज्ञः सनृपः स्वगृहम् गतः